अङ्गिरतो वै क्रमासते सुवर्गम् लोकमायन्तेशागम् हविष्मागश्च हविष्कृच्चा हीयेताम् तावकामयेतागम् सुवर्गम् लोकमिया वेति तावेतम् विहात्रमपश्यतान्तमाहरतान्तेनायजेताम् ततो वैतौ सुवर्गम् लोकमैतान्य एवम् विद्वान् विहात्रेण यजते सुवर्गमेव लोकमेति तावेताम् ह्त्तरेणाभिप्लवस्पोर्वमः भवति गतिरुत्तरम् जोजिष्टोमोऽग्निष्टोमस्पोर्ममः भवति तेजस्तेणावरुन्ते सर्वस्तो मोदिरात्र उत्तरम् सर्वस्यात्यै सर्वस्यावरुद्धे गायत्रम् पौर्वः सामभव चेजो वे गायत्रे गायत्रै ब्रह्मवर्तसम् तेज एव ब्रह्मवर्तसमात् मन्थत्येत्रेष्टभमुत्तरभोजो वै वीर्यम् दुष्टगोज एव वीर्यमात् मन्धत्येदन्तरम् पूर्वयः सामु भवतीयम् वैरसन्दरमस्यामेव प्रयुतिष्ठति बृहदुत्तरे असौ वैबृहमुष्यामेव प्रयुतिष्ठदा भुक्व जगतेजानुष्ठु चेति वैघानुसम्भोर्वे हसानुभवतेन जगत्तेनेतिषोरस्युत्तरे तेन भो सा हुर्यः समाने स्यातामन्यतरस्यान् भावीर्यमनुपद्यते मास्यायाम् पूर्वमहद्भवत्युत्तरस्मिन्नुत्तरम् न दैवार्धमासयो भवतो नानावीर्ये भवतो हविष्मन्निधनम् पौर्वमहद्भवति हविष्कन्निधनमुत्तरम् प्रतिष्ठित्यै आपो वा इदमग्रेसमाधेत्तस्मिन् प्रजापदर्वायुर्भो त्वा च रत्स इमामपश्यक्ताम् वराहो भो त्वा हरत्ताम् विश्वकर्मा भो त्वाव्य प्रथसा पृथग्यः तत्पृथव्यै पित्तम् तस्यामश्रां यत् प्रजापतिस्त देवारसद्रासो निर्द्रानादित्याम् ते देवा प्रजापतिमब्रुवम् प्रजागामः ृक्षे वन्तपसि प्रजननमिच्छमिच्छतेन श्रेरितेनाश्राम्यन्ते संवत्सरगे गाङ्गाजन्ततां वसुद्भ्यो रुद्रेभ्य हरित्येभ्यः प्रायच्छन् नैतां रक्षद्भ्यमिलितां वसवो रुद्रा रक्षन्त मसुद्भ्यो रुद्रेभ्यः प्राजायदत्री त्रयस्त्रि प्रजापतिमप्रेण नष्टोमे न सूरयाजयत्तय मल्लोकवजयन्तच्छातुरस्वच्छेन रुद्रादया जयथेऽन्तरिक्षमज गन्तच्छातुरस्सोणानित्यादयाज गत्ते मल्लोकवचयन्तच्छातुरस्तदन्तरिक्षं जगे गजदस्मा रुद्राघातुकाराय तनाहितस्मादा शिथिलं वैमभ्यमहस्तिरात्रस्य विहित नमस्याज्यम् सोक्त्राणि सगुंसलिषोडशिलं शकं सत्यन्हो सत्याशिथिलम्भावास्मा तस्याज्ञष्टोमरेव प्रथमो हस्ता सोच्चोताम् लोकानाम् विधृत्यै त्रीणि त्रीणि शतान्यो चेनाहमग्रविच्छिन्नानि ददात्तेषाम् ्छिन्द्याने तस्यामिन्द्रस्य विष्णुश्च व्यानक्षेतानयां विष्णुः सहस्रं वक्ष्यस्यामकल्पेतान् विभागेन्द्रस्तते विष्णुस्तद्वारेधाभ्यनोच्च सुरजिताम्बारेतामच्छा वागणे वशकं सत्र होतारम् वाभ्यतिरिच्यते यतिरिच्यते होतायुताहुर्नेत्रे ते जयततिरिक्तावायठाकास्तमुन्नेतत्यजामथाहुस्सर्वेभ्यस्तरस्येभ्यो तेजे त्यथा हृदागत्या तापशङ्करे त्यसाहृ ब्रह्मलेखा मेधेत तेजे ऋद्विभागम् ब्रह्मणेतबीजमीष ऐन्द्रो मे धामित्यथा हुर्या कल्याणी बहुरूपा सा देगेत्यथा हुर्याग्निरूप भगतगेणी सा देगेति सहस्रस्य वैगृहे एतद्वारेतत्सहस्रस्यागनकम् सहस्रकृस्तोत्रीया सहस्रम् दक्षिणा सहस्रसंविदस्वर्गो राजस्वर्गस्य लोकस्याभिजित्यै स्वामो वै सहस्रमविन्दन्तमिन्द्रोन्दविन्दत्तौ यमोऽन्यागच्छत् तावप्रभेदस्तु मेत्रा केत्यस्तु हि अब्रूतागुम् सगम एकस्याम् वीर्यम् पर्यवश्यधियम् वाश्च सहस्रश्च वीर्यम् विभर्त्येति तावब्रवेदियम् ममास्त्वेतद्यवयोदपि तावब्रोतागुम् सर्वे वा एतदेतस्याः वीर्यम् परिपश्यामागुम् समाहरामः इति तस्यामगुम् समाहरन्त नाम सुप्रावेदगरन् सोमा यो कृत्वा त्रयः प्रगौ सते सहोदेत्कस्माद् द्रोहिण्यापिङ्गलये गहायञ्जा सोमं क्रिणीशाजेवम् विद्वान् द्रोहिण्यापिङ्गलये गहायञ्जा सोमं क्रेणादि त्रयस्त्रिंशदा चैवाश्चत्रभिश्चते सोमक्रीतो भवति सुक्रीतेन यज चेता मुक्शुक्रा वैजयन् निन्द्रा सा हि वार्तघे रूपम् कृत्वा त्रयस्त्रिकंशदा च त्रिभिश्चे सहोदेत्कस्मात् ल्लक्ष्मणां पष्ठोह्यम् भात्रग्भ्येन्दध्यात्रं विद्वान् द्रोहिणेल्लक्ष्मणां पृष्ठहे भात्राग्भ्येन्दराजत्रयत्रयं चैवाश्च जरदा दप्तापवदतामायोजेः सहा जरते मोर्खादज्जघन्यारोपञ्चत्वायत्रियं सदा चेत्तस्माज्जरते मोर्खाच्चज्जघन्यामनुस्तरणे कुरु मूर्खान्तज्जघन्यामुस्तरणीम् करुते त्रयस्त्रिकिंशैवाश्च त्रीणि दशतामुष्मिल्लोके भवति वागे वदहस्तदवेतस्मात् साहि वरस्सहस्रमस्य सा दत्ता भवति तस्मात् त्वरोनप्रतिगृह्य साहि वरः सहस्रमस्य प्रतिगृहीतम् भवति यम् वरैति ब्रोजा रधान्याम् ब्रोजाभियम् सहस्रम प्रतिगृहीतम् भवत्युभयदगेरे ैव वरः कल्याणे समर्था स्यात् साहि वरसमुतामुत्तरेणाग्धा रापयः सत्यात्पा विशन्धवः समुद्रम् वसन्धवः सामाज प्रजगावशताद्रैर्ति प्रज ेवेन वजुभेदय्या समर्थ्यगति प्रजावान् भवति पुनस्ताः प्रवेत्यासवर्णपराजयशेन पराभिज्ञैकदश्च नैना इन्द्रश्च विष्णोैरवस्तृथान्त्रेधा सहस्रम् विगतैर येधा वियच्छेधा विभक्तम् वैत्रिदा त्रे सहस्रगुण् रोज सहस्रश्चीनाम् मात्राहङ्करोचरूपाणि जहोजरूपे देवी समध्यगितश्चाभोत्थाय कन्मा च पेदितेन देजिते सरस्वतिप्रिये प्रेयशिव विश्रुक्ते कारिते अग्निके नामानि सुकृतम् मा देवे शुभ्रूताजिरिदेवेऽभ्यदेवे न मा वेदघट् कन्वेन सहस्र रम्या वेयजमानस्तुर्गम् लोकमे जैरगौ सुवर्गम् लोकाङ्गमयदिधामाधुवर्गम् लोकाङ्गमगेत्यावर्गमेवेण लोकाङ्गमयदिशाभा ज्योतिपन्तम् लोकङ्गभगेत्या ज्योतिष्पन्तमेवेण लोकङ्गमयदिशा सर्वान् पुण्या लोकाङ्गमयेत्या सर्वादेवैनम् पुण्या लोकाङ्गमयदिशाः प्रतिष्ठाङ्गमय प्रजला बलभिस्थर्मा प्रजगेवणम् पशुभेदय्याम् प्रतिष्ठापयति प्रजाभान् पशुवान् नगिमान् भवधिग एवम् वेददा भग्नीदेशे वा ब्रह्मणे वा होत्रेवोद्गात्रे वा दद्यात् सहस्रमस्य दत्ता भवति सहस्रमस्य प्रतिघृतम् भवतिगस्ता भूता विष मा सहस्रमित्येकामेवनाम्भूताम् प्रतिग्रन्थादिकसहस्रैः एवम् वेदस्योरासु सुददासु सेवास्यो ना वा विश सुषदा वा विशदसेवा वा विषयत्याः स्योमेवकौ सुषदासु सेवा भूता विशतरेणकौ विरस्ति ब्रह्मपादिना वदन्ति सहस्रकौ सहस्रतम्यम्भे सहस्रतमेकम् सहस्र निजे प्राजेमुत्सृजेत् सहस्रकौ सहस्रदम्यण्यात्तत्सहस्रमप्रज्ञात्रकौ सुवर्गम् लोकम् न प्रजानीयात् प्रदेजे मुत्सृजलिताकम् सहस्रमुनपरिजामत्तदेशात् प्रजाते सुवर्गम् लोकमेत यजमानमभ्युत्सृजि ज़ित्र क्षिप्रेण सहस्रम् प्रजायमुत्तमानीयदेशे प्रथमादेवान् गच्छति अत्रितादौर्वाग प्रजां वद्रगामाय सलिजामामञ्जनुमासगयञ्चतो रात्रम् पश्यत्तमाहरक्तेन यो वीरस्य ऋत्वारो वीराजायन्तसोहो दासोद्गादास्वध्वर्यस्तुतभय योग एवं विद्वादिष्टतो रात्रेण यजदाश्च ऋत्वारो वीराजायन्ते सोदासोर्गादास्त्वध्वर्यस्तुतभय योगे चतुर्भिः पवमा ब्रह्मवर्ततं तद्य बुद्धं दस्तो भा श्रे सा त्रिज्ञ श्रद्धा व्यञ्जमानम् चत्वारि वीर्याणि लोपानमन्तेन्द्रियं ब्रह्मवर्चलमन्नात्यं सकेतागश्चतुरश्चतुष्टो भान् सोपानवश्चैरै नामानन्देन्द्रियं नाद्यं चतुर्थैरेवं विद्वागश्चतुरश्चतुष्टो भान् सोमानाहरैर प्रथमेणावरुन्धयन्द्रियम् अत्यञ्चतुर्थेन गामेवमेव यजमालरुद्धोति शमदग्निः पुष्टिका दोरात्रेणाय रस एतान् पोषायम् नपुष्यत्तस्मात्पजतो जामदग्नियो न सञ्जाता एतादेव पोषान्पुष्यति एवम् विद्वागश्च दोरात्रेण यजते पुरोडाशून्यमपसतो भवन्त्यपशभो वै पुरोडाशः पशूनैवावरुन्धेन् वै पुरोडाशोऽन्नमेवावरुन्धेन् दानः पशुवान् संवत्सरो वा इदमेकः वै सत्वं सृगेत्रेण पञ्चलात्रमपश्यत्तमाहर्तेन इदतो वै सरतो नृगतये विद्वान् पञ्चरात्रेण इददे प्रैवजागते तरदवसृष्टा न व्यावर्तन्तरेणम् पञ्चरात्रमपश्यन्तमाहरन्तेना इजन्तरतो वै देव्यावर्तन्त एवम् विद्वान् पञ्चरात्रेण इद विभात्मनाभ्यादुर्बेणावर्तते सार्व ैशौ यो गामयदपशुमान् श्यामि त्रयम् पञ्चरात्रमाहरत्यैनायजरस सोमेधसहस्रम् अशून् प्राप्नोग्रयेवम् विद्वान् पञ्चरात्रेण यजदे प्रसहस्रम् अशूनाप्नोदिम वरप्रावाहनय गामयभाज प्रवदिता श्यामि त्रिषयेतं पञ्चरात्रमाहरत्यैनायज रस पञ्चरात्रेण यजदे प्रवजदैव भाच ृत्याहुरणात्रश्चतुर्त्रोदरिक्तत्रोऽधवा सम्प्रतिज्ञो यत् पञ्चधात्रो एवं विद्वान् पञ्चरात्रेण इदेन प्रत्येव यज्ञेन यजगे पञ्चरात्रो भवति पञ्चभारतमस्तम्बत्सरतुष्टेव संवत्सरे च पञ्चाकदा पङ्कृन्तो यज्ञो यज्ञमेवा वरुन्धे त्रिवदज्ञिष्टोमोभवरुन्धे पञ्चरसा भवदीन् निगमे पावरुन्धे वृत्तदशो ेवस्य प्राशविदप्रभवेश्विना बाहुभ्याम्भ्यामानर किमामगर्भसनामलस्य पूर्वारिजविदसेतु कव्या अभिधा शुभोणमुगन्तासि धत्ताजित्वाम्भे स्वागरगुम् सप्पथगम् गच्छ स्वाहा पृथिव्याःन्ता गमनो धत्तासि धरुणः कश्ये त्वा क्षेवागत्वा रय्ये त्वा कोषा गत्वा पृथिव्ये त्वान्तरिक्षायत्वा जने मात्रा प्रभो पित्राश्व सत्यो जनतो सर्वादि सप्तशिवशाणादिनामास्यादित्याम् पत्वान्विषग्रगे स्वाहा स्वाहे राज्ञेभ्या स्वाहा प्रजापदगे स्वाहा विश्वेभ्यो देवेभ्य स्वाहा सर्वाः भो देवताभ्य स्वाहे हरिज स्वाहे हरि स्वाहे हरि स्वाहा भुवे त्वा भव्यागत्वा भविष्यदे त्वा विश्वेभ्यत्वा भूदेभ्यो मेधाय प्रोक्षितम् गोपायता आयनाय स्वाहा प्रायनाय स्वाहाय स्वाहोद्धृदाय स्वाहा शोकाय स्वाहा शोकृदाय स्वाहा पलायिताय स्वाहा पलायिताय स्वाहा अग्ने स्वाहा सोमाय स्वाहा वागवे स्वाहा वामोदाय स्वाहा च मित्रे स्वाहा बृहस्पत्यै स्वाहा बृहस्पति स्वाहा वरुणाय स्वाहा सर्वस्मै स्वाहा स्वाहान्तरिक्षाय स्वाहा दिने स्वाहा सूर्याय स्वाहा चन्द्रभजे स्वाहा रक्षत्रे भस्वाहा प्राच्यैदृषे स्वाहा दक्षिणा वेदृशे स्वाहा प्रदेच्यैदृषे स्वाहो दीच्यैर्षे स्वाहोर्ध्वा वीदृशे स्वाहाभ्यस्वाहान्तर्षाद्भ्यस्वाहा स्वाहाभ्यस्वाहार्भ्यस्वाहा होरा स्वाहास्वाहास्ताः तुस्वाः संवत्सराय स्वाहा सर्वस्मै स्वाहा अग्नये स्वाहा सोमाय स्वाहा चवित्रे स्वाहा बृहस्पत्ये स्वाहा तूष्णे स्वाहा बृहस्पति स्वाहाय स्वाहा वायवे स्वाहा मित्राय स्वाहा वरुणाय स्वाहा सर्वस्मै स्वाहा र्ये स्वाहान्तरिक्षाय स्वाहा जिवे स्वाहा सोमाय स्वाहा सूर्याय स्वाहा स्वाहा अन्धे स्वाहा रात्रिये स्वाहा ग्रवे स्वाहा दाधवे स्वाहा दुक्षित्ये स्वाहा us may stop. भो देवानाम् कर्म नाम सर्तस्य पथ्या चेभेवदयागारत्रेण छन्दसायिलद्युपसन्तेन त्वत्तुना हविडादेक्षया विरुद्रेभ्देवेभद्देवदगा तैष्णेन त्वाच्छन्दसायिलज्ज्यग्रेश्वेन त्वत्तुना हविडादेक्षयाम्यादित्येभद्देवेभद्देवतेन त्वाच्छन्दसायिनज्ज वर्षाभित् त्वत्तुना हविडादेक्षया विश्वेभद्देवेभद्देवदयानष्ट ेन त्वाच्छन्दसायल शरदा त्वत्तना हविडादीक्षगाम्यङ्गिराभिद्दैवभिद्दैवदगापान्ते जान्दसाय लज्ञ हेमन्त शिशिराभ्याम् तत्तना हविडादीक्षगाम्या हन्तेक्षामलगपदस्य पत्नी गायत्रेण छन्दसा ब्रह्मणा चत्तगुम् सत्ये सागुम् सत्यमृतेधा महे मोषुसुत्रामानमिहष निस्वाहे हमिष निस्वाहे हरम् तिस्वाहे हरमधि स्वाहा ेङ्काराय स्वाहेङ्कृताय स्वाहा क्रन्दते स्वाहा प्रक्रन्दते स्वाहा प्रोषते स्वाहा प्रोषते स्वाहा गन्धाय स्वाहाय स्वाहा प्राणाय स्वाहा ज्ञानाय दे स्वाहो भरदा यस्वाहा निवेक्ष्यते स्वाहा निविशमानाय स्वाहा निविष्टा यस्वाहा निवत्स्यते स्वाहा निधीर स्वाहा निधन्ना स्वाहा धीराय स्वाहा जता यस्वाहा निपत्स्यते स्वाहा निपद्यमानाय स्वाहा निबन्नाय स्वाहा दयिष्यदे स्वाहा शगालाय स्वाहा शयिताय स्वाहा सम्मेश्यते स्वाहा सम्मेलते स्वाहा सम्मेलिताय स्वाहा स्वा स्वाहा स्वप्सदे स्वाहा स्वमदे स्वाहा सुप्ताय स्वाहा प्रभोक्षदे स्वाहा प्रबुध्यमानाय स्वाहा प्रबुद्धाय स्वाहा जागरिष्यते स्वाहा जाग्र स्वाहा जागरिताय स्वाहा शुश्रूषमाणाय स्वाहा जन्मते स्वाहा श्रुताय स्वाहा वीक्षिष्यते स्वाहा वीक्षमाणाय स्वाहा वीक्षिताय स्वाहा सञ्जमानाय स्वाहा स्वाहो विद्यमानाय स्वाहा विभक्षते स्वाहा विवर्तमानाय स्वाहा विवृताय स्वाहो स्वाहो तिष्ठते स्वाहोच्छिदाय स्वाहा विधविष्यते स्वाहा विधोन्मानाय स्वाहा विधोदाय स्वाहो क्रगृह्यते न्दो यमानाय स्वाहा नन्दो हिताय स्वाहा निकटिष्यते स्वाहा निकषमानाय स्वाहा निकटिताय स्वाहा यदक्षिदस्मै स्वाहायत्किपतितस्मै स्वाहायन्मे हिदस्मै अग्रे यस्मा वाजवेस्माहूर्यायस्माहत्तवस्त्रस्यत्तमसि सत्यमसि धस्य सत्यमस्त्रस्य सत्यया मन्थमसि देवानाच्छायामृतश्च न मृतः सत्यन्यत्वम् प्रजाहृदस्यन्वाजनीमनुभक्पद्धन्तैजमसौर्येण विशोपानः कर्यम् पशुन्न गोपायपरिज्ञमा ओ साभ्रामेवा सुवर्गकामाहेतकौष ्रात्रमपश्यन्तमाहरन्तेनाविजन्त ततोऽपि हेतुवर्गं लोकमाचरें विद्वागुं षड्रात्रमाधुरे तुर्गमेव लोकैरन्तिरेव सत्रं वैषड्रात्र प्रत्यक्षेतानि पृष्ठानि एवं विद्वागुं च षड्राक्रमाधुरे साक्षादेव देवता अभ्यारोहन्ति षड्रात्रो भवति षड्वातवर्ष पृष्ठानि पृष्ठैरेव प्रतिष्ठन्ति बृहत्रीतरमसो बृहदानयो प्रतिष्ठन्ते देवे यज्ञस्यान्धरे पञ्चदशोभवनेन्द्रियमेवावरुन्धरे सप्तदशो भवत्यन्नाभ्यस्यावरुद्ैवतेन जायन्तरे कविकं स्वभव प्रतीक्षित्वा सौरुदेवत्मन्देत्र नवति विजित्यैतयश्चिगुंशो भवति प्रतिष्ठैते तदोहमिद्वारिणके नास्पेहमिद्धाञ्चाग्नेयेभ्यञ्जभवदस्तद्भिजुवर्गञ्च क्रीवते भवदस्वर्गस्य लोकस्य समष्ट्यां लोकलमुद्वाजोपो भवति प्रतिष्ठयिते प्राञ्चोयां विप्राय विगतवर्गो लोकः सरस्वत्यायां तेश वेदे भगानः रोहन्त्याक्रोधन्तो याञ्चभक्तिमेवान्यषज्यप्रतिष्ठान् यच्छन्ति यदा दशतम् कुर्वन्त्य सेकमुत्थानकम् तदाय पुरशेन्द्रियायश्वेन्द्रियप्रेतिष्ठन्ति यदा शतकम् सहस्रम् कुर्वन्त सैकमुत्थानकम् सहस्रदौ यतो वा असौ लोकोऽ एव लोकमभिजयन्ति यदेकाहम् प्रमीयेत यदा वादीयेन तथैकमुत्थानम् तद्धिते पुसुरविन्दा उद्दालगजगामयशुमान् सामिदये सप्तरात्रमाहत्तेनायजते न वेशगावन्तो ग्राम्या पदमस्तानवारुन्धये एवं विद्वान् सप्तरात्रेण गजते गावन्तरेव ग्राम्या पदमस्तानेवावरुन्धे सप्तरात्र भवति सप्त ग्राम्या पशमसप्तारण्या सप्तचन्दागस्तु पयश्चावरुद्धे शपथ गृष्णामा पञ्च स्वभवीन्द्रियमेवावरुन्धेन विगुंसेवा प्रजापदेव सर्वपृष्ठो विधात्र भवति सर्वस्याभिरि यत् प्रत्यक्षं प्रहस्व पृष्ठान्यवेष प्रत्यक्ष शुद्धावपसीदत्तमुत्तममहश्च नैकरात्रश्च न स्याद्बृहन्तरे पूर्वेश्वहस्वोपयन्तीयम् वामरसन्तरमसो बृहदाभ्यामेव नयन्ति प्रत्यक्षम् विश्वजिति पृष्ठाम्भयन् प्रत्तान् तादृगे वदते मेन ब्रह्मवत्यसे स्वामिदयदमष्टरात्रेण विजरमेन ब्रह्मवत्यस्य भवत्रिदेवं विद्वानष्टरात्रेण विजरे ब्रह्मवर्तस्येव भवत्यष्टरात्र भवत्यटाक्षरागायत्री गायत्र्ये ब्रह्मवत्यदं गायत्र्यदेव ब्रह्मवक्षदमवरुन्ध्रेष्टरात्र भव निजलस्रोमे दक्षदस्रोमान्तरदिशादिभ्यदेव ब्रह्मवक्षदमवरुन्ध्रे ोमो भवति चेदेव वरुन्धे पञ्च स्वभवीं निजमेवा वरुन्धे सप्त स्वभवत्यन्नाद्यस्यावरुद्ध्या स्वयवते रजाय दये कविगं च भवेजमेवात्पन्धत्रैत्र नवभुवेत्यैत्रयस्त्रिगुं च भवित्रे पञ्चमभुवै प्रजापते भवति <Gã> सर्वस्याभिरित्यै <entender> प्रजापति प्रजा दृशतता सृष्टाः क्षुधन् व्यायन् स यदन्तवरात्रमवश्यमाहत्तेना प्रजाभ्यो कल्पदयरिः प्रजाः पृथम् निगच्छेदस्तरि हि नवरा तेन इे हि वा नेतासाम् लोकावृत्ताधिताः पृथन् निगच्छन् लोकान् कल्पयदितान् कल्पमानान् प्रजाभ्यो नुकल्पते कल्पन् अस्मादि त्रिरात्रेणैव्यरात्रेणान्तरिक्षन्ति रात्रेणामुन् लोके यथा गुणैर्णमन्वश्चत्येव नृत्याजितिरं भावायज्ञो जग्गौराजनिर्ज्ञाताोमा भवन्तीरं भावज्योजन्तरिक्षं गौरसावाजिरेणश्व ज्ञात्रं प्रजानाङ्गच्छ स्मिन् तेजोधारो ज्योगामयामे स्यात् सरवरात्रेण यतेन प्राणाहि वा येजस्याज्योगामय प्राणानैवास्मिन् राधा रोदयदेता सद्भवति नैवत्रैव प्रजायजेतनेन दश होदारमशब्मजुः त्रेलदश आक्रमसजनेन प्राजाय दश आत्राय देव्यमाणो दशहोदारञ्जमुदसरात्र कौसजते चैलदश आत्रेण प्रजाय देवै राजो वा जेशयज्ञायज्ञसरात्रो य एवं वृद्धान्तसरात्रेण यजदेव राजमेव गच्छति प्राजापत्यो वागेज्ञोयज्ञसर रात्रौ एवं विद्वान्वरात्रेण यजते प्रैवदाय रीन्द्रो वे सदम् देवताभिराजे व्यामृतमगच्छत्स प्रजापदैव दशरात्रम् प्रागच्छत्तमाहरत्तेनाभिर्देवताभिर्व्यामदमगच्छत्रेवं विद्वान् नरात्रेण यजते व्यामृतमेव पाप्र्वेण गच्छदय पञ्चदश कबुदेकविगुंश कवत्रयत्रिगुंशोऽदेवं विद्वान्त्रेण इददे त्रिगुरेव समानानां भवति इजमानपञ्चदशो यजमानयकविगुंशो यजमानत्रे त्रिगुंश पुरयमानो देव पुरादेव परिगो हेदस्तनगुरश्च नोपा व्याधो भवति नैनमभिजन् शृणुते देवासः सय्यत्तासन्ते देवा देवपुरा अवश्यनयत्तश स्ता पर्योहन्तदेशान्त्याव पुरागेव परियोहते भवति भवत्यात्मनापरा श्रद्धादुर्जो भवति स्तोपस्तोपस्योपस्त्यर्भवनिष्ठादुर्जमेवोपस्थिम् कुरुते जामिना एतत् कुर्वन्ति यज्ञायागुम्स्तोमुपेत्यगणीया यं जयदग्निष्टोमदाम न्यमस्ता च परस्ता च भवन्ति जामित्वाय त्रिमदग्निष्टोमोहनि भवन्धे मञ्जरसं चेन्द्रेन्द्रियमेवावरुन्धे त्रिमदग्निष्टोमोत्रेवेण पुष्टिमेवावरुन्धेन प्रजापत्यावरुद्ध्या प्रेमतेन जायत एकमिकंश च्छणेच्च अथौवात्मन्धत्वे सप्तदशोष्टामः प्राजापत्यासोपहव्यवमेव गच्छेत्र न वायुसौख्यामैष्वेवेषु प्रतिष्ठैते सर्वपृष्ठो जनात्वा भवति सर्वस्याभिजित्यै भो वे प्रजाकावाः प्रजान्ना विन्दन्तदे कावयन्त प्रजान्देमहे प्रजामवन्धेमहे प्रजां विन्देमहे प्रजावन्तस्तावेदेव तवेकादशरात्रमपश्यन्तवाहनन्ते नायजन्त ततो वेद प्रजावधयन्त प्रजामवानुन्धन प्रजामविन्दन्त प्रजावन्तो भवन्त भवन्तरां वावे पुत्रास्तस्मादात्तवाच्यन्तेः भवन्ति ज्योतिर निरात्र भवति ज्योतिरेस्तादेव भगस्यख्याते पृष्ठश्चादि पक्षैरेव प्रतिष्ठन्तेक्षराय नेत्रं ब्रह्मभवत्तयत्र्यामेव ब्रह्मवत्तरे प्रतिष्ठन्ति तिरश्चत्वारिकम् च भवति तिरश्चत्वारिकं चदक्षरा तृष्टेन्द्रियम् प्रयतिष्ठन्त्यत्वारिकं च भवत्यच्चायत्वारिकं चदक्षरागत्यामेव प्रतिष्ठन्ते एकादशरात्र भवति पञ्चमाय आवाः पञ्चपृष्टैवार्थवेणसंवत्सरे प्रतिष्ठाय प्रजापरुन्धरे त्राभि भवत प्रजा हे न्द्रवायवाग्राहन् ग्रन्धे जात्य कामजत् यथा पूर्वम् प्रदा कल्पेण निजयज्ञस्त्वे कृत्यमनः प्रजाः कल्पन्ते यज्ञस्याकृत्यमनः कल्पन्ते ग्रन्थेरणरेक्षितानाम् प्रवीरेत प्राणापाना ध्याम्बाणेते व्यर्थन्ते रन्तेक्षितानाम् प्रवीयते प्राणापानौ मित्रावरुणौ प्राणापानावेव मुखः परिहरन्ताश्विनः ्रान् गण्डेतानुजा वराश्विनो वेदेवारामानुजापरोपश्चैवतामश्विना वेदस्य देवताग्रानुरावरश्चा वे वे दे तों तों तों तों दे न भग्रं परिणयतशुक्राग्रान् गण्डेतगतश्रे प्रतिष्ठागाभोधौ वादित्रशुक्रणेदोऽ मनुष्ठश्रिगे गत्वारिवत्तरेऽन्ता देवान् तुभते रतप्पावीरान् भवति मन् च ग्रान् गन्भीराभिचन्नार्तमा ं वा न्यन्वन्सि भात्रं वच्यनैवेन ग्राहे नारगात्यग्रेणाग्रां गृह्णेत यस्य पिधा पिता महःपुण्यस्याप्तस्य पिधापिता महापुण्य भवत्य प्राप्नुरय वैद्रज्ञस्य वायवयदाग्रेणा वा नैवमिन्द्रियेण समर्भयस्मा र्यमाणः सर्वेषाम्बा एतत्पात्राणामिन्द्रियै गच्छात्र गोधर्वेण दैवेनमिन्द्रियेणाधिप्रियुङ्के नरस्पत्रभिवस्थे मनोज गुर्याद्वाद्वेस्पदे वा देवेन मिप्रियुङ्के मात्मक्षेत्राञ्जनानित्यार्वेक्षेत्राञ्जना नैव मृत्योः क्षेत्राणि न गच्छति भोर्वाङ्ग्रहान् ग्रन्थे यादामि प्राणानुवादेजस्य सुगृच्छदयस्यामृषि प्राणाग्रहा प्राणानेवस्तु शुचोमुञ्जत्रदयदेता सभवति देवत्येव होर्णाङ्ग्रहाया तर्हि पद्यज्ञानवर्षे प्राणानुवादेतरिह प्रजानागौ सुगृच्छति यदि पद्यज्ञानवरिषदि प्राणाग्रहा प्राणानेव प्रजानागौ शुचोमुञ्जरिता च प्रवर्षदि यत्रो वायैन्द्रवायवो गायत्रम् प्रायणेयमहस्तस्मा प्रायणीयेहन्यैन्द्रवायवो लक्ष्यते स्वदेवेन मायदने ग्रन्हात्रेष्वभवेन प्रत्यस्मा द्वितीयेऽहन् शुक्रोदिश्यते स्वदेवेन मायदने ग्रन्हाजागरो त्रयणो जागरम् द्वितीयमहस्तस्वा तृतीयेऽहन् नाग्रेणो दृश्यते स्वयेवेन मायतने ग्रन्हा त्वे यज्ञमापद्यनागस्याो देताः प्रेमस्त्व नित्ययत्रैव दे यज्ञमो सन्दतय पुनः प्रियन्ते जगन्मकोऽपि द्वितीयस्ति धात्रो जागतः क्रीणो यत्रेऽहन्ना क्रीणो दृश्यते स्वयेवेन मायुजने गृह्णाच्योक्तमेव चन्दोनवर्य वर्तन्ते राजन्तरो वा ऐन्द्रवागवो राथन्तरम् पञ्चममहस्तस्मात् पञ्चमेऽहन्नन्द्रवागमो दृश्यते स्वयेवेन मायुजने गृह्णादिबारभतो वे शुक्रो बारभदनु षष्ठमहस्तस्मा षष्ठेऽहन् शुक्रो ेन भागदेव द्वितीय यज्ञमावज्य चन्द्रायस्याप्नो यत् शुक्रश्व वृक्ष्यदे यत्रैव यज्ञमलन्द्रदेवेन पुनः प्रियन्ते त्रिष्टण्रात्रेष्टुभशुक्रो यत् सप्तमेऽहं शुक्रो वृक्ष्येश्वगेवेन मागदेव विद्यते स्वदेवेन वायुदय गृह्णादि प्राणो वा ऐन्द्रवायः प्राणो नस्तस्मान्दवमे हेन्द्रवायवो विद्यते स्वदेवेन वायुदय गृह्णात्येजद्वे तृतीय यज्ञ वा पद्यच्छन्दायस्याप्नो यतेन्द्रवायवस्वो यते यत्रैव यज्ञपदशन्तेन पुनः प्रयुङ्क्ते सोऽस्त्वमेव छन्दो खलु वायेषु दशम महत्तशमे हण्डैन्द्रवायवच्यते यज्ञस्यैवान्तं गत्तावसात् पन्थामुपयन्त्य स यथा बहि यथा प्रचारम् वहन्ते नागेव गच्छन्दागस्यन्योन्यश्च लोकमभ्यध्यायन्तान्यैतेनैव देवाव्यवाहयन्तैन्द्रवायवस्य वा एतदागतश्च महस्तस्मिन्नाग्रेणा लक्ष्यने तस्मादाग्रे स्यागतने न ममेहन्द्रीन्द्रवायवो लिख्यते शुक्रस्य वागेनदायदने यत्पञ्चमहस्तस्मिन्नीन्द्रवायवो लिख्यते यस्मादीन्द्रवायवस्यायतने सप्तमेऽहन् शुक्रो लिख्यताग्रेणस्य वागेदायदने यत् षष्ठमहस्तस्मिन् शुक्रो लिख्यते स्वा शुक्रस्यायदने अष्टमेहन्नाग्रेणो लिख्यते छन्दागश्चैव तद्विवाहयति प्रवश्च विवाहमाप्नो दी एवं वेदाथो देवद भ्यगेव संविदन् तथा च ददाति प्रजापदर्कामयद <imitation> स्तस्मादिधात्र कोर्मः प्रयुज्यते चक्षुषी एवमोदौ पक्षो येन्तरेष्टामुख्यास्तात्मैषामी गायत्रीयपक्षाणि एवं वेद ज्योतिता भासा सुर्गल् लोकमे प्रजापदन् तो पक्षो येऽन्तरेष्टा उच्चा सात्मा प्रजापतिर्वा वैष सा सद्भवैषत्रेण श्रुणो युक् प्राणावैषत्राणामेव स्तृ सर्वासाम् भागेते प्रजानाम् प्राणे राजते ये सत्रमासुदेतस्मात् प्रेच्छा जिगवेदे शत्रुलैत्रियः प्रजानाम् न वागेषास्वर्गाय लोकाय प्राहभागेश आले हे देवायम् हेष्पालरम् परियोहान् स्ववर्गस्तु लोकस्य प्रभोवच्चारे तेन प्रजापतिमया जगञ्च स्वार्ध्रोदित्यक्षेमम् विद्वान्धाजशाहेन भावसन्तायत्रायच्छेष्माय जगत्त्वस्मादाहुरानुजा वरस्य यज्ञेतेन वै गुणवमत्तिगस्तत्रै प्रथगृह्णादि पुरुषगुणवस्व गुणवं गौर्वान् येन मात्रेणान्नगत्तन्न निर्मे जलो हिमलञ्जागतगे तैः प्रजापतिरार्ध त्रेक्ष्यासा संवत्सरः संवत्सरः प्रजापति प्रजापतिशोभिजाय देव निर्धा चित्रश्चिस्रो रात्रयोद्धाश पशुदा याः प्रथमा यज्ञन्ताभिस्सम्भरिया द्वितीया यज्ञन्ताभिरानभजया स्त्रीया पात्राणिताभिे लिखेयाश्चनमन्तदश अस्त पशुपत्भागंसकुंसरास्तुंश पि पापं पुरेशकंश आज्यम भज्ञा नगुँंस स्वस्पैंस भी ढवा अस्पन्या प्रतिग्रंथ द्वादशाहे प्रतिग्र तस्दशाण्यम्वृत् एकस्मे स्वाहा द्वाभ्या स्वाहाभ्यस्ताः चतुर्भ्यस्ताः पञ्चभ्यस्ताः षड्भ्यस्वाः रक्तभ्यस्वाःष्टाभ्यस्ताः नवभ्यस्वाः द्भ्यस्वाहैकादशभ्यस्वाः द्वादशभ्यस्ताः त्रयोदशभ्यस्ताः चतुर्दशभ्यस्ताः पञ्चदशभ्यस्ताः षोडशभ्यस्ताः सप्तदशभ्यस्ताः अष्टादशभ्यस्ताः एकान्यूषत्ये स्वाहा नवविंशत्ये स्वाहे का स्वाहा नवचत्वारि स्वाहे का स्वाहा नवषके स्वाहे कान्नाशेत्के स्वाहा नवाशेत्ये स्वाहे कान्नशताय स्वाहा शदाय स्वाहा स्वाहा सर्वस्मै स्वाहा